हरि ओं श्री सीतारामचन्द्राभ्य नमः अथ श्रीमद्वाल्मीकि रामायण युद्धकाण्डे अष्टम स्वर्गः दुर्मुख वज्रदष्ट निकुम्भ वज्रानुभि रावणस्य समक्षं सदृशे नाम निपातयितुं सोत्साहस्य प्रदर्शनम् ततो नीलाम्बुदप्रक्षस्थो नाम राक्षसः अब्रवीत्राञ्जलिर्वाक्यम् शूर सेनापतिस्तदा देव दानव गन्धर्वा पिशाच पतगोरगः सर्वे धर्षितुं शक्या सर्वे प्रमत्ता विश्वस्ता वञ्चितास्म हनुमतः नहि मे सर्वां सागरपर्यन्ताम् सशैलवनकनम् क्रोम्य वानरम् भूमिम् अज्ञापयितु माम् भवान् रक्षाञ्च विधास्यामि वानरान् रजनीचर नागमिष्यति ते दुःखम् दात्मा पराधजम् अब्रवेतु सदं क्रुद्धो दुर्मुखो नाम रक्षस इदम् न क्षमणीयम् सर्वेषां न प्रधर्षणम् अयम् परिभवो भूय पुरस्यान्तः पुरस्य च श्रीमतो राक्षसेन्द्रस्य वानरेण प्रधर्षणम् अस्मिन् मुहूर्ते गत्वैको निवर्तिष्यामि वानरान् प्रविष्टान् सागरम् भीमम् अम्बरम् वारसातलम् ततो ब्रवीत् संक्रुद्धो वज्रदष्टो महबलः प्रगृह्य परिघङ्गोरम् मासशोणितषितम् किं नो हो मता कार्यम् कृपणेन तपस्विनः रामे तिष्ठति दुर्दर्शे सुग्रीवेऽपि स लक्ष्मणे परिघेण स लक्ष्मणम् आगमीष्याम्वेको वीक्षोभ्य हरिवाहिनी परम वाक्यं शुणु राज्यसी उपायुशलो जय शत्रु नंद्रि काम्र रूप धरा शूरा सुीम दर्शन राक्षसा सहस्राणी राक्षस अधिप निश्चिता काकुत्थमुपसंगम्य विभ्रतो मानुषम् वपुः सर्वैः अप्सम्भ्रम भूत्वा ब्रुवन्तु रघुसत्तमम् प्रेषिता भरतेनैव भ्राता स वयवीयता सहितेनाम् समुत्थाप्य क्षिप्रम् देवोपयास्यति ततो वयम् शूलशक्तिगदाधरः शापबाणा सिंहस्ताश्च त्वरितास्तत्र यामहे आकाशे गणश्यश्चित्वा हत्वा ताम् हरिवाहिनीम् अश्मशस्त्र महावृत्या प्रापयामयमक्षयम् एवम् चेदुपसर्पे अनयम् रामलक्ष्मणौ अवश्यम् अपनीतेन झताम् एव जीवितम् कम्भकर्णिकततो वीरो निकुम्भो नाम वीर्यवम् अब्रवीत् परमकृद्धो रावणं लोकरावणं लोकरावणम् सर्वे भवन्तः महाराजेन सङ्गतः अहम् एको हनिष्यामि राघवम् स लक्ष्मणम् सुग्रीवम् सह ततो वज्र हनुनाम राक्षस पर्वतोपमः क्रुद्ध पदीलयन् सृक्काम् जिह्वया वाक्यम् अब्रवीत् स्वैरवं स्वैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वरः एकं भक्षयिष्यामि तं सर्वं हरिवाहिनीं स्वस्था क्रीडन्तु निश्चिन्ता पिबन्तु मधुवारुणिम् अहम् एको वदिष्यामि सुग्रीवम् स लक्ष्मणम् साङ्गदम् च हनुमन्तम् सर्वा चैव वानरान् इत्याखी श्रीमद् रामायणे वाल्मीकि आदि कवे युद्धकाण्डे अष्टमः सर्गः